अथ शिवाय नमः ओ अस्य श्रीरुद्राध्यायप्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्टुप्च्छन्तः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवसरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्बसदा शिवप्रसादसिद्ध्यर्थे जपे विनियोगः अग्निहोत्रात्मने अङ्गुष्टाभ्यान्नमः दर्शपूर्णमासात्मने तर्जनीभ्यान्नमः चातुर्मास्यात्मने मध्यमाभ्यान्नमः निरूढवसवन्दात्मने नामिकाभ्यान्नमः ज्योतिष्ठोमात्मनेकनिष्ठिकाभ्याम् नमः सर्वक्रत्वात्मने करदलकरपृष्ठाभ्यान्नमः अग्निहोत्रात्मने हृदयाय नमः दरिशपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायी वशटे निरूढवशुवन्दात्मने कवचाय हुम् ज्योतिष्ठोमात्मने नेत्रयाय वौषटे सर्वक्रत्वात्मने अस्त्राय भटे भूर्भुवः स्वरोमिति दिग्बन्धः ध्यानम् आपादालनभस्तनान्तभुवनब्रह्माण्डमा विस्फुरते ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोकाप्नुतमेकमीशमणिशम् रुद्राणुवाकाञ्जपम् ध्याये ध्यादी सिद्ध्रुवपतम विप्रो व्याप्त ब्रह्मांडव्यादेहाभसीमुचा भासमना भुजंग कंठे काला कबर्दा करदशिकलाशकोदंडहस्ताुद्राक्षमा प्रकटते विभवा शांभवा मूर्तिद्रा श्रीरुद्रूक् प्रकटते विभवा न प्रय्छंत सौख्यम Om um. सञ्च मे मयश्च मे प्रियं मेऽनुकामश्च मे कामश्च मे सौमणसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगस्व मे द्रविणं च मे यन्ताच मे धर्ता च मे मे शयनञ्च मे सूषाचमे सुदिनञ्चमे ॐ शान्तिःशान्तिशान्तिः ॐ नमो भगवते रुद्राय नमस्ते रुद्रमण्यवहुतोदैषवे नमः नमस्ते अस्तुधन्वने धन्वणे बाहुभ्यामुदते नमः या तयिषुः शिवतमा शिवम् बभूव ते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया या रुद्रशिवा तनो पापकाशिनी। तया नस्तनुवा सन्तमया गिरिशन्ताभिजाकशीः यामिषम् गिरिशन्त हस्तेऽिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु जगते शिवेन वचसा त्वागिलिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्वकुम् सुमनासत् अध्यवोचदधिवक्ता प्रथमो देव्योऽभिषके अहीकिश्च सर्वाः जम्भयन्सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण ये चेमाकुम् रुद्राभितो दृक्षश्रिताः सहस्रसो वैशाकुम् हेडयिमे असव्योपसर्पति नीलग्रीवो विलोहितः उदैणम् गोपाः दृशन्न दृशन्नुदहार्यः उदैणम् विश्वा भूतानि नमो हस्तु नीलग्रीवाय सहस्राक्षाय मीदुषेः अथो ये हस्य प्रमम् च धन्वनस्त्वमुभयोरात्नियोज्या याश्च ते हस्तैषवः पराता भगवो वप अवतत्यधनुस्त्वकम् सहस्राक्षसतेषु धे निशीर्यशल्याणाम् मुखा शिवो नः सुमना भव विद्यम् धनुः कवर्दिनो विशल्यो बाणवागम् उत आभुरस्य निषङ्गतिः या ते हेतिर्मीषुष्टमहस्ते बभूव ते धनुः तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तमधन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो नी सुधिस्तवारे नमस्ते अस्तु भगवन विश्वेश्वराय महादेवाय व्यम्बगाय त्रिपुराम् दगाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवेशे नान्ये दिशां च पद येन वृक्षेभ्यो हरिकेशे पशूनाम् पतयेन मो नमः सस्मिञ्चराय त्वषीमते पथीनां पद नमो बभ्रुषाय विव्याधिने नानाम् पत येन नमो हरिकेशायोपवीतिने पुष्टानाम् पत येन मो भवस्य हेत्ति जगताम् पद येन नमो रुद्राया तताविने क्षेत्राणाम् पतयेन मो नमः सूताया हल्यायवनानाम् पत येन मो नमो, नमो रोहिताय स्थपतये वृक्षाणाम् पदयेन मो नमा मन्त्रिणे वा निजाय वृक्षाणाम् पदयेन मो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पदयेन मो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पदये नो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमाणायनि व्याधिनः व्याधिनी नाम् पत येन मो न मक्कुभाय निषङ्गिने स्तेनाम् नमो निषङ्गिनयिषुधिम ते तस्कराणां पतये न मो नमो वञ्चते परिवञ्चते स्तायूनां नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पदये नो नोन्वाविभ्यश्च वो न मो नमः तन्वाणेभ्य प्रतिदधानेभ्यश्च वो न मो नमः वो न मो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो न मो नम आसीनेभ्यश्चयानेभ्यश्च वो न मो नमः स्ववद्भ्यो जाग्रद्भ्यश्च भ्यो स्वपतिभ्यश्च भो नमः नमः व्याधिनेभ्यो विद्यन्तेभ्यश्च वो नमो नम मुगणाभ्यस्तृगुंहतेभ्यश्च नमो नमो गृत्सेभ्यो कृत्सपतिभ्यश्च भो नमो नमो व्रातेःभ्यो व्रातपतिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च नमो नमो रथेभ्यो रथेभ्यश्च नमो नम सेनाभ्य सैना वो नमो नम क्षत्रुभ्य संग्रहीतुभ्यो नमो नमस्तक्षभ्यो रथकारेभ्यो नमो नम कुलभ्यो नमो नम पुंजिष्टे निषारेभ्य वो नमो नम युष्यो जन्मृतभ्य वो नमो नमो मृगयुभ्य स्वनीभ्य वो नमो नम स्वाभ्यस्वेभ्य वो नम नमो भवाय चुद्रा जनम शर्वाय च पशुपत जनमो नीलग्रीवाय चकंठा चमकर्देशा जनमस्सहक्षा चतधन्वनेनमो गिरीशा चिपिबिटा जनमो मेनुष्टमा चेषुमते जनमोस्वाय जवामनाय जनमो मृहते जवऋषे जनमो वृद्धा चुधनमो अग्रिया चथमाय जनम हाशे चिराय जनम शीघ्रिया य चीभ्याय च नम ऊर्म्याय चावत्स्वन्याय च नमस्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय जघनिष्ठाय जनमः पूर्वजाय चाप रजाय जनमो मध्यमाय चापगल्भाय जनमो जन्याय च बुद्धिन्याय जनमसोऽभ्याय च प्रतिसर्याय जनमो याम्याय चक्षेम्याय जनम उर्भर्याय जखल्याय जनमश्लोक्याय चापसान्याय जनमो वण्याय च कक्ष्याय जनमश्रवाय च प्रतिश्रवाय जनमहासुषेणाय चासुरथाय जनमशूराय चाप भिन्दते जनमो मर्मिणे जोसिने जनम बिल्मिने च कजिने जनमः श्रुताय च श्रुतसेनाय च नमो दुदुभ्याय जाहनियायनमो जृवे च प्रमृषा जनमो धूताय प्रतायमो नषंगिने चेुधिते चरमस्तीक्ष चा युधिने चरम स्वायुन्े जनम श्रुत ज्याट्याय चेप्याय जनम सूद्याय जनमो नाद्यायताय नकूप्याट्यामो वर्षा चाह्याय जनमो मेघ्याय च विदुद्ध्याय जनमीध्रिया वात्याय च नोपात्याय चरेष्म्याय जनमो वास्तव्याय च वास्तुपाय नम सोमा चुद्रा च नमस्ताम्रय चारुणा चनम शंकाय च पशुपत जनम उग्रा चीमाय नमो अग्रे वधा च दूरे वधा च नमो हंत्रे जहनीयसे जनम वृक्षे हरिकेशे नमस्ताय नम शंभव मो भव च नम शंकराय चमयस्कराय चलम शिवाय शिवतराय चमस्तीर्थ चकूल्याय नम पनमत चोतरणय महातार्याय चालाद्याय च नमषष्ट्याय च भेन्याय च नमस्य गत्याय च प्रवाह्याय च नम हिण्याय चवध्याय जनमकुं शिलाय क्षयनायन कर्ने्यायाय जगृह्याय जनमस्तलप्याय जगेक्याट्याय जगह पेक्ताय जनमो सदैया नम पाकुंसव्याय ना जनम सृष्याय हरियायनमो लोप्याय चोड़प्याय नम पू्याय शूरम्याय चम पण्याय पर्ण सद्याय नमो बगुरवाणा घ्नते जनमहाखिदते च प्रखिदते जनमो वैकिरिकेभ्यो देवानागुम्हृदयेभ्यो नमाविक्षीणकेभ्यो नमा विचिन्वत्केभ्यो नमःलिहतेभ्यो नमः मीवत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीलोहित येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मारोमो येषाम् किञ्च या ते शिवा तनोः शिवा विश्वाहभेटजी शिवा रुद्रस्य भेटजीतया नो मृडजीवसेः इमागम् रुद्राय तपसे कवर्दिनेः क्षयद्वीराय प्रभरामहे मतिम् यथा नः समसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनोमयस्कृतिक्षयद्वीराय नमसा विधे यच्छञ्जयोश्च मणुरायजे पिता ततस्यामतवरुद्रप्रणीतौ मानो महान्तमुतमानो हर्भगम् मानवुक्षन्तमुतमानवुक्षितम् मानोऽवधीः पितरम् मोदमातरम् प्रियामाणस्तनुवो रुद्ररीरिषः मानस्तोकेतनयेमानहायुषिमानो गोषुमानोऽश्वेषु रीरिषः वीराण्मानो रुद्रभामिदोऽवधीर्हविष्मन्तो नवसा विधेमते आरार्ते गोघ्न उदपूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु रक्षाजनो यदेव ब्रूह्यथा जनः शर्म यच्छद्विवर्हाः मृगन्न भीममुपहत्नुमुग्रम् मृडाचरित्रे रुद्रस्तवाणो अन्यन्ते अस्मिन्निव परिणो रुद्रस्य एवृणक्तुपरि द्वेषस्य दुर्मदिरघायोः अवस्थिरामघवद्भ्यस्तनुष्वमेध्वस्तोकायतनयाय मृडय मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्षायुधन्निधाय कृत्तिम् वसा नहाचरपिना कम्बिभ्रदागैः गीरितविलोहितनमस्तेऽस्तु भगवः यास्ते सहस्रकुम्हेतयोऽन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रधा हेतयः सा मीषा न भगवः पराचीना मुखाकृधी सहस्राणि सहस्रसो ये रुद्रादिभूम्याः तेषाकुम्सहस्रयो जने वधन्वानि तन्मसी अस्मिन्महत्यर्नवे अन्तरिक्षे भव अधि नीलग्रीवाश्रितिकण्ठाः सर्वा अधःक्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रामुपश्रृताः ये वृक्षेण सस्मिञ्च राणीलग्रीवा विलोहिताः ये भूतानामधिपतयो विसिखासक्क कपर्दिनः ये अह्नेषु विविध्यन्ति पात्रेषु पिबतो जनाने। ये प्रथाम् पथिरक्षया इैलमृदायव्युधः ये तीर्थानि प्रचरन्ति सृगावन्तो निषङ्गिनः ये तावन्तश्च भूयापुंसश्च दिशो रुद्रावितस्थिरे तेषाम् सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याञ येहेन्तरिक्षेये दिव्येषामण्णम् वातोपरिषमिषवस्तेभ्यो दश प्राची दश दक्षिणा दश प्रदीचीर्दशोदीचीर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयम् दुतेयन् विष्मोश्च नेष्टितम् भोजम्भे दधामि त्र्यम्बकञ्यजामहे पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृता ते यो रुद्रो अग्नो यो अप्सुयवोषधीषयो रुद्रो विश्वा भुवनाविवेश अस्मी रुद्राय नमोहस्तु ये ते सहस्रमयुतम्पासा मृत्यो वर्त्या यहन्तवे यज्ञस्य मायया सर्वान्वयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्यर्मे पाहि प्राणाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॐ शान्ति शान्तिशान्तिः ॐ शान्ति सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नातिभवे भव स्वा भवोद्भवाय नमः य नमो ज्येष्ठाय नमः नमो रुद्राय नमःकालाय नमः नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः नमो मनोन्मनाय नमः अघोरेःभ्योऽथोरेःभ्यो घोरघोरतरेभ्यो नमस्ते अस्त रुद्रपेभ्यत्षा विमहे महादेवाय धीमह तोद्रचोदयाशानस्यामीश्वर सर्वूता ब्रह्माधिपतिर्ब्रह्मणाधिपतिः ब्रह्मा शिवो मे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः हर हर पार्वती पतये हर महादे